श्रद्धामनारब्ध्यय ज्ञेन श्रद्धा वा श्रद्धामेवारभ्ययज्ञेन एवं वेदयज्ञायुषानि सम्भरति यज्ञानि यज्ञायुषानि यज्ञमेव दत्कम्भरति येकमेकं सम्भरेत्यानिश्चर्यधुराणि मानुषानि द्वेद्वेषं भरति या जानुभाक्ययोरेव रूपम् करोचतो वने चतुर्पञ्चकृष्णाजिरञ्जसंज्ञातो लोकनमुखरञ्ज कृोपदायितानि वेदतयज्ञायिता एवं वेदमुखतो कल्पजयो वैदेवेभ्यस्तप्रोच्य यज्ञ निवेदै जिसंदेशदेवाव्यगं हरण्य दोच्यमाण्यमभिमन्त्रये हुगलिदेवेभ्य एव प्रोच्चये यज्ञेन यजतेश्च देवाज्ञमेधवै यज्ञस्य द्रवृत्वैव यज्ञेन यजते यज्ञस्य सृजा सोमनसामये प्रजापयज्ञमतनुसमनदैव तस्यज्ञं तनुते रक्षसामनन्नवताराय यो वै यज्ञं योग प्रजापद्रियु जाने प्रजापदल्यज्ञानसृजताग्निभात्रञ्चाग्निमञ्चपौर्णमाधे सौख्यञ्जामाभात्यामेव कावलग्निभाप्रमाधे तावालग्ज्ञ मा यावे पौर्णमाधे तावानुो यावत्य माभात्यातावानतिरात्रो पाप्नो जिता वदपात्मोभि एवं विद्वान् भोर्णवादी निजते यावधुक्षे न भाप्नोदिता वदपात्मोभि एवं विद्वान् माभात्यां यजते यावदति वात्मोदिता वदपात्मोदि निरवाधाय गच्छेन प्रजापजः परमा काष्ठामगच्छेनेन्द्रम् निरवाधाय यच्छेनेन्द्रः परमा काष्ठामगच्छाज्ञे भोमौ निरवाधाय गच्छ राज्ञे भोमौ परमान् काष्ठामगच्छ धान्य एवम् विद्वान्द्रवोर्णमासो यजते परमामेव काष्ठां गच्छति योगे प्रजागेन यज्ञेन यजति यत्प्रया पुनैर्जायश्वादश मासाः संवत्सर्वे चाहुर्वत्सञ्च पादृश्युपाञ्चाधिष्ठयश्चादि पुरो याद्यं चिनुश्चालक्षभिलगृह्णाभिवेदीञ्च परिभृता ीन्दलक्षणि प्रोक्षणे साधयच्छाज्यम् चैतानि वै द्वादशद्वन्द्वानि दर्शवोर्णमादयस्थानिकम् सम्पाद्य यज चेत्रैव यज्ञेन यजधावशुधर्मधुनैरजायते ्रुवसिद्धो हविंसजाते च भोजासवित्या द्रुवानेवैनान् पुरुषु विग्रोहविंस जाते भूया समित्याः प्रतिवादिनयीनान् पुरुषे विभोरश्च विभोरः स जाते भोजा समित्याय एव ज्मित्वा ब्रह्मणादेशवाग्नेयक्षे ैवैनं जनक्ष यज्ञस्य वैशमुध्येन देवास्तु वर्गं लोगमायल यज्ञस्य भावय ध्यासुदयो यज्ञमुख एव ब्रह्म कुरुते संवत्सरे व्याकरयेताशेवोपसादयेत् ब्रह्म नैवो भयतः संवत्सरं परिगृह्णादि कलुषको न मादोषा गुरुहास्यानसमानयेता परित्यासादरे यज्ञमुखं वै कलशको न मादोषा गुरु ग्रन्थैता ध्यासुदयो यज्ञमुख संवत्सरे बलियाचतयेताभिदेवासादये ब्रह्मणैव भगतस्त्वं वत्सरं बलिबृह्णादियद्वे यज्ञस्य यज्ञस्याभिर्गच्छाभिषयं यज्ञस्याभि सत्यस ब्राह्मणो नाशीर्चयज्ञामिधेनेव समक्षं नेताभृते पुरस्ताद्याद्ब्रह्मै मत्त ब्राह्मणस्वाधेर्चेन यज्ञम् कामय रजतमानं भ्रातुर्यमस्त्र यज्ञस्याधेन गच्छस्यैता व्याहते पुराणभाक्यायां गभ्याभ्यारुर्यदेवत्याे पुराणभाक्याभ्यातुर्यदेवास्त्र यज्ञस्यागच्छान् कामय रगतमानान् समावत्यैनान् यज्ञस्याशीर्गच्छ ेषामेका व्यासदेः पुरोनुवाच्यायाद्धयेकाह्याज्यायै पुरस्कारे गाहं याज्ञयार्भर्चये काङ्गान् समापवे यज्ञस्या वै पर्यन्यस्तु वष्टं परिषत्यै मै यज्ञो इदमानाय वर्षविफलयोदकं परिगृह्णा याशिषा यज्ञै इदमानः परिगृह्णादिमनाभिप्राय वक्यम् मनसा माभूतेना विषयत्याहमनो वै प्राजावत्यम् प्राजावत्यो यज्ञो मनगेव यज्ञमात्मन् भक्ते वागत्यैन्द्रियपभ्यक्षयणे वाचामेवन्द्रियेणाभिषेत्याहेन्द्रिय वै वाग्वाचमेवैन्द्रियमात्मम् भक्ते यो वै सप्तदशं प्रजापतिं यज्ञमन्वायस्त्वं वे राष्ट्रति यज्ञेन तिष्ठजनयज्ञाद्वंशद आश्रमये ऋतुर्लक्षनवश्चौषधि त्रितुर्लक्षरञ्जते विध्वक्षरञ्जे नाम हरिपञ्चाक्षरं यक्षरोपगत्ता येशवै सप्तदश प्रजापति यज्ञमन्वायत्व एवं वै राष्ट्रति यज्ञेन तिष्ठदिनयज्ञाद्भुंशते योगै यज्ञस्य थालयनं वेद प्रतिष्ठिदेनारिश्चयेन यज्ञेन सज्जुस्थाङ्गच्छाश्रावयास्तौष्यजयैलामेव यज्ञश्च प्रायणमेधाप्रैतदुलयेन वैरप्रतिष्ठिदेनाधिष्ठेन यज्ञेन सज्जुत्थाङ्गच्छ वियो वै दोदवादेहं वेदुहयेन यज्ञो वै सोदुधाश्रावयश्चैवीनाम ृपाभाग्यजय प्रथमेपातुलत्वषकारेण वेतद्वयनाम् देवा वै सत्रमासेन्द्रगेतामाद्राम् पङ्क्तिमपश्यन्नाश्रावये पुनभातमजनयन्नश्रौषडित्यब्दगुण्नप्रापय निजेति विद्युतमजनयेन यम् अभ्यस्तमयं वशत्कालेण स्वी च ज्योतिषप्राप्त्यायन्त्रयेवं मे लात्मेवत्यायन्ते प्रजापदिम्भो वेद प्रजापतित्वं मे द्वयं प्रजापधर्वेद्या भवत्यै सवेश प्रजापदिराश्रावयात् तत्रौषष्टियेषत्पालो य एवं वे न पुण्या भोगै प्रिया चालसूमेव प्रीणादि प्रीताय भा पूर्वं कल्पञ्च कल्पञ्चमा भोग एवं वेदाज्ञी रोमयो रहन् देव यज्ञया चक्षुष्मान् भोजासमित्याहाज्ञे रोमाभ्यां वै यज्ञश्चक्षुष्मान् आभ्यामेव चक्षुषात्मन् धत्रयज्ञे अहं देव यज्ञयान्नाद भोयासमित्याहाज्ञ देवानामन्नादृक्षै नैवान्नाद्यमात्मं सत्यभ्ययग्रवत्सभूयासममुत्याहैतयादैवभ्याध्येवासुदान लभ्यवन्तभ्यातुर्यन्दभ्राज्ञेश्वमयो लहं देव यज्ञया वृतः भूयासुमित्याहात्मेषाभ्याम्बा इन्द्रव्रतमहन्नाभ्यामेव भ्यातुर्यग्विन्द्राज्ञयो लहं देवयेत् यज्ञेन्द्रियाभ्यन्नातो भूया भलिक्ताहेन्द्रियाब्देवान्नातो भवतीन्द्रस्याहं देव यज्ञयेन्द्रियादे भूया पलिक्ताहेन्द्रियाब्देव भहेन्द्रस्याहं देवयज्ञया देवानं सहिमानं गमेयमित्याह जेमानमेव महिमानं गच्छज्ञे स्पृष्ठकृतोऽहं देवयज्ञया तिष्ठति इन्द्रम् वा विश्वदस्त्वमहे जनेभ्यः अस्माकमस्तु यत्पालजते यत्ताः सोरो निकादासवदस्य गाना गोमयुभ्रजे भजात्पन्नः इन्द्रियाणि चलक्रोजाते जनेषु पञ्चसु इन्द्रताय <SINSAhim》> दाद्रे अनुचेदाय महे इन्द्रियाय भत्रा देविश्वमनदहत्ये अनुक्षत्रमणसहोय दत्रेन्द्रदेवे शरणदेलक्ष्ये आयत्यम्प्रवासवास्तिच्छन्दिभो यथामैन्द्रस्य धर्मो अतिथिः आमासुभक्तमयौरोभयोगिली धर्मण्यसामन्तपदासुभक्षर्चिर्पणभेकिरः हि सलिग्राशिना बृहदिन्द्रमर्चेऽिवर्किणः किम् धम्बालीरणौषधः कायम् वित्वा कायत्रिमार्चम् चर्चमर्चिणः ब्रह्माणस्ताशुरक्षतमुद्धंशनिरे अकुम्भामजने प्रफले मामलेशामोषिष्ठता पुणेषु मतिङ्गः इदमिन्द्रप्रति हव्यङ्गभागसत्यहास्तमानस्य कामाः हृदे जयन्माभिन्द्रमन्धः अगुम्हतोत्र देवलद्यथा नारेभयान्तराणामगुम्भौमुचम्बसंयज्ञलानाम् अपान्नपातमस्वि नाभयम् तमस्विन्नयम् धस्तमोजः श्रिरन्द्रिहिणे चायचपुरञ्जतः असत्पदन्तीनाम् अपारदोजनमित्रयन्द्रमुरुञ्जेवम् परावराजगा मापरस्याः त्रिशकं शकुंशाेन्द्र जिग्धो श्रीत्रस्य हनोन्यन्द्रभाविषौ वित्रस्याभिः दातारीन्द्रमलितारवीन्द्र किं हरेण हरेण सुखुंसो रवीन्द्रम् कुलेन रत्रम् कुरौ रवीन्द्रज्ञ स्वस्य नाम ताभ्रान्द्रः आदे अस्यायङ्कहता वन्परिष्ठावधाय भोमः इव प्रै सायस्वनो विजयधर्मलो धियासत्सो युवश्याम अनवश्चैरसमस्वायक्षन्तष्टावज्रम् पुरुभो दध्युमन्तम् ब्रह्मानयन्त्रम् महयन्तो अर्कैरवध्रयन्नः एहन्तवाहो कृष्णे यस्य कृतमो अर्कमच्चायन्दग्रावारियोगाः अनक्ष्मा भोगे पवयो रसा इन्द्रेभ्यः जयवत्रम् शदस्यो ओ ं वाहिताग्भौकनिष्ठन्दयिता खलु वै पाकयज्ञस्तैषान्तराप्रया जानो याजानि यजमाणस्य लोके बहिताभिमन्दये दैवोपरितवर्णये हेतिवशभोपावसौ नैवोपक्रियते यज्ञं वै देवानुष्करयज्ञमसुरागं मधुभक्ते सुरा यलिको मे यज्ञस्य लो त्यन्यैजमानन्दे स्वा मे सत्याधीरस्य यज्ञश्च भूयादित्या हैभवै यज्ञस्य स हे नै वैनं तुभेत्तत्ता वैभव दुहेत्तच्चेदायमानाय दुहये देवायुराये त्वनादिवभूचेति वा यलिभो ते नामभक्मये तर्हि इदमानो भवतारीक्षमानो वायं मनसाध्यायेत्रे ेवत्तमुपावस च विसर्वेण विज्ञेन देवावस्तुभर्गं लोकमायन् वाकयज्ञेन मलक्ष्णान् शत्रै रामनमुपामत्तं देवासुदाव्यक्वयं तत्प्रती देवापदा देवसुदात्सादेवानुपावत्तज भजभो वैतदेवानवशवसुदानजभोजका वयेता पशुत्याजविपदाजेन्द्रस्य रायेता पशुदेव भव ुमान् चादिप्रदेभें तस्य रामभक्वये दपसुमान्मेक भवति ब्रह्मभाजिनावगन्धिरस्वायि रामभक्वये रीया बभूयात्मानमिना यामभक्वजेते निदानप्रिया सुप्रदोरोमभो ये चाहेनामेवोपभूयात्मानविनायामु भक्वयदेध्यस्तविवारेतशैकेतिलाभाविक्तां जि सामिमानार्जयन्तये ब्रह्मणा देवानस्तमसर्गस्पदः सर्वाभिमन्मत्याह ब्रह्म वै देवानां बृहस्पदैब्रह्मणैव यज्ञकं सन्तधादिविच्छन्नै नैतं भगवन्तधाह सन्तत्यै विश्वे देवादिगमादयङ्त्याह सन्तत्यैव यज्ञं देवेभ्योन्यां वै यज्ञे दक्षिणाञ्जरामश्च ङ्क्रामं शिलगेशगी जानाभृतभागुपोषितमानेन खलु वैतत्कार्यमित्याहुर्यथा देवत्रा दं कुर्वेतात्तं कथं भ्रमयेते दिव्रध्रविन् भक्तेत्याहयज्ञो वै व्रद्ध यज्ञमेव तं महयत्यसो देवत्रैव दत्तं कुरुन् श्रमयते ददतो मेमाक्षायेत्याः क्षिमे गोपैकुर्वतो मे मोपदधरित्या गश्वममुपो हिलिमुवाजयच्छत्रि मार्गम्भो च भोक्ता भोवानत् प्राणेन देवान् साधारज्ञानेन मनुष्यान् पानेन विजिलप्तिसा खिलप्ति ेति होमाजशरीरम्बा अस्त्यैतो वा जोर्वा अस्त्यै शरीरङ्गाम्भावतो तत्पर्यवदपा यज्ञे दीयते देवान्धाधारिया मनुष्या जीवन्ति साध्यानेन मनुष्याण कृतभ्योभ्यन्तिसा बाणेन कृतेन एवं रेलपशुवान् स्वभत्य सवैरामपा होमाज प्रजाप्रभवन्ते प्रत्याभवकेऽत्यन्नम् वा अस्ते तदु वायि गो वा चौषधिगो वा अस्यान्नमोकटगो वै प्रजा प्रभवन्ते प्रत्याभवन्ति केवलं वेदा फलाख्य सवेदामुपा वैर्भोवादिया प्रजा पराभवन्ति ग्रन्थादिप्रत्याभवन्ते प्रतिष्ठां वा अस्येतदुपाकृयैर्भोपाधेयं वा चेत् प्रतिष्ठेयं वे प्रजा पराभवन्तिर ग्रन्थादिप्रत्याभवन्तेर्ग्रन्हाधिक एवं वे न प्रत्ययतिष्ठच्च स वेदामुपा वैर्भोगा म् प्रजा सञ्जीवन्तेनस्तीति होमा जप्रदजनयते होमा जलश्चर्वागिला वृक्षेण निक्रमणे घृतम् प्रजा सञ्जीवन्ते शिवन्ति एवम् वैलत्रैव जायते भवते परोक्षं अन्ये परोक्ष वा अन्ये देवा युजं देहे प्रत्यक्षमन्ये यद्यय देहेव देवा परोक्षमिजं देवानेव तद्यय जगतन् वा हार्यमाहश्चेदेव देवा प्रत्यक्षं यद्वाम्भनास्तानेव तेन त्वे नाक्यतो दक्षिणैवा तैषासो यज्ञस्यैव छिद्रमपि तथा जयद्वै यज्ञस्य क्रूरं यज्ञयिस्तन् वा माहरविदन्वाहार्यस्यान्वाहार्यत्वं देवदूता वा येते यदृष्जो यदन्वाहार्यमाहरदेवदूतामेव प्रेणादिप्रजापयव्येभ्य यज्ञान्यादिषत्फलि चामन्यतमन्वाहार्यमभत्रमक्षत्तमात्मन्यभवागेश प्राजापत्यो यदन्वा हार्यो यत्यैवं विदुषोमन्वाहार्या हियदेवा देव प्रजापदयवर्धिलात्यपरिमितोपरिमित प्रजापतिः ैव्यायसत्वेन वेष्टा कोर्चे प्रजापदयार्भागोच्याः प्रजापति भागधेयेन समर्थयत्योर्जस्वान् पयस्वामित्रा भोर्जमेवाख्यन्मयो प्राणामानौ मे मारिवानौ मे माहेत्याः दृढमे मेता माश्चिताश्च क्षित्ये स्वा मामे मुतामस्तन्क क्षेय देवामस्तोक नील प्रदान जिसेमस्वन्ोकृचु मध्यमय दिनाख्यामस्तण लोकेन्न क्षीय दे बहि सोऽहम् देव यज्ञयाः प्रजावान् भूयाभिमित्याह बहि रामै प्रजापय प्रजासृजवतेनैव प्रजासृजतेन राजगं सत्याहम् देव यज्ञया पशुवान् भोजा भवित्याह राधगंसेन वै नैव पशून् सृजतेन यज्ञेन स्पृष्टकृताहम् देव यज्ञया युष्मानयज्ञेन प्रतिष्ठान्य ज्ञेन विक्षै दर्शपूर्णमासयो कृपै देवामुच्य विमलोजयन्दर्शवोर्णमासा रामसु रानपा उदन्ताग्नेहमुच्च विमनोज्यै समित्या सदर्शपर्णमासयो देवदेवतानाङ्गितमायोज्य विमनोज्जय दर्शपोर्ण भ्यां यो हत्यन्नम् वैवाजवान्नमेव्यां पुस्तैजो मे यज्ञस्य द्वोदो विद्वायैलभयज्ञं तु हे पुरस्तापरिष्टाच्चैशवान्यो यज्ञस्य लो हिलायामन्योहो दायमानस्य नाम गन्धे या तर्हि प्रो याजे माद्मन्नाशिशो दोह कामायुज्यस्तुता ेवदेवता दुरेभय देवैजुक्ताः प्रापयेन देवताङ्गमयत्विच्चा हैतैर्ते भा स्वायषमानप्रस्तरोदेव प्रस्तरं परहिदेवास्वैरेवयज मानवं सुवर्गं लोकं गमय दिविते मञ्जानादिदेन चाहैषाग्नेमोकस्ते नैवेनाग्निमञ्जलिविष्वाष्क्य अहन्देव यज्ञया यज्ञेन प्रतिष्ठाङ्गमेयमित्याह यज्ञो वैमि स्मर्यज्ञकेवान्तरप्रतिष्ठयतोमस्याहञेव यज्ञया सुरेतारेतोषेयेत्याहतो वेदे दोषास्त्येनैवरेत आत्मन्धक्षेत्रस्तुदहन्देव यज्ञया पशूनागं रूपं पुषे यमित्याहस्तोकां विशुनानागं रोगेनैव पशूनागं रूपमात्मन्ध देवानां पत्नीरग्निर्गवदुर्गज्ञस्वमिथुनं प्रयो रहं देव यज्ञया मिथुनेह प्रभो या सुनित्या हैतस्माद्वे मिथुना प्रजापदं मिथुने ह प्राजाय गतस्मादेव यजमानं मिथुने हजायते वेदोऽधित्येत्याह स्यामगन्धीघात्रदेवास्य सर्वम् ग्रन्थे भृदवन्तङ्कुलागिनकम् कार्यकोषकम् सहस्रिणम् एताशतापभाषिनमित्याहक्रसहस्रम् वसूनाः प्रजायाम् भागी चालेख एवम् वेदा ध्रुवां वैरुच्यमानाय यज्ञो न युच्यते यज्ञङ्गियमानो हिलमानं प्रजाभ्रुवात्यायमानाय यज्ञोन् प्राप्त्यायते यज्ञङ्गियमानो हिलमानं प्रजामात्यायतां ध्रुवाभित्याभ्रुवामेवाप्यायय निलामात्यायमानाय यज्ञोन् प्राप्त्यायते यज्ञङ्गयमानो यजमानं प्रजा प्रजापतेन वृभानाम लोकस्य तच्छज्ञस्मादधामि सह यजमानेनेत्याहायं वै प्रजापदे नाम लोकस्तस्मिन्नेवैनन्दधानि सह यजमानेन वा एतस्य जयते यजमान भागं प्राश्चाख्यात्मानमेव प्रेयाक्षेता ेवद्वै सूयपथगिं सोतगं यद्वर्हिश्चापश्चैतस्य जमानस्यायतनं ैषवेद विश्वोर्णमासयोदवृथोगान्येवैनम् भूतानि मृतमुखयन्तमनोपयम् वितैरेव सहामृथमवेदि विश्वमुखावैरेवा छन्दोभिरिमान् लोकानावयेयमभ्यजगदय दृष्णक्रमान् क्रमदेवश्वरेव भूत्वान् छन्दोभिरिमान् लोकानावयेयमभिजय विश्वाक्रमात्रे मे पृथिवे त्रेसपमङ्गले सञ्जागदे द्योदानत्वभेदकृतत्सङ्गाभिदेवेनान् लोकायभापूर्वमभिजयति अगन्मसु वस्त्वमदगन्मेत्याह सुवर्गमेव लोकमेति भृषस्ते माचित्सयत्रे न वक्तत्वैवेलाक्षेत्यायुजमेतत्सभोरऋष्येश्वर श्रीनामायुधायन्मेधेहेत्याः विषमेतामाशास्ते प्रभागेशोऽस्मान् लोका च देशो विष्णक्रमान् गमने स्वयि लोकाय विष्णुक्रमाक्रम्यन्ते ब्रह्ममालिना वदन्ति तत्रैव स्मक्रमान् क्रमे जगमान् लोकान् भ्रातव्यश्च संयद्य पुनरिमल्लोकं प्रत्यभरो हेदित्रे समाश्च लोकश्च प्रत्यवरोहो या भेदमाद्योभ्यो चै दीमानेव लोकान् भ्रातव्यश्च संयद्य पुनरिमन्लोकं प्रत्यवरोहति सञ्ज्योतिषा भो मित्याहाक्यमेव लोके प्रयतिष्ठत् न्द्रयमावृतमन्वाव्याः सौमादित्यैन्द्रस्तश्रैवातमलपर्यावर्तते दक्षिणा वर्यावत्तदे स्वमेव वीर्यमल पर्यावर्तदेव स्माक्षिणार्थ्यावत्सो मादित्यश्रीवावतमल पर्यावर्तदेशमहम् वृतयापम् मया प्रेयत्याहाविषमे वेतामनसाः ते समिद्धराज्ये मे भीरिहित ज्ञैत्या समित्याह यथा ऋषुरेव तद्वहुमानि यज्ञोगान् भूयासमित्याः ऋषमेवेतामाशास्ते बहुवेगादिभवत्यस्याञ्च निमिव चाज्ञमानेभ्यान्त्यमुपदिष्टुणाश्चनन्त्राभ्याम् प्रविच्छा अज्ञैगृहपदयित्याहयथामेतच्छदगुम्भिमानि ्याह सदन्ता हेमन्तानन्दये दिवादेव पुत्रस्य नाम ग्रन्थाख्यन्नाथमे वैलङ्करो माधिसमासा देवन्तमे ज्योजस्वदेवेब्रो याजस्य पुत्रो जातस्यात्यैजस्यैवाश्च ब्रह्मवर्ते पुत्रो जायदेतामाधिसमासादेवत्मने ज्योजस्वदेवे ब्रो याजस्य पुत्रो जातस्यात्यैज एवास्मिन् ब्रह्मवत्यसन्तयो वै यज्ञं प्रयुज्य न विमुञ्च प्रतिष्ठानावै विरक्ता यज्ञा विमुञ्चस्य प्रजापदर्वेय प्रजापतिनैवैनै प्रजापतिना विमुञ्चदि प्रदिच्छरं वै भ्रतमविभक्तं प्रथमाज्ञ योगे यज्ञश्च पुनरामभिमत्तज यज्ञान ैशवै यज्ञस्य मारालम्भस्य नैवम् पुनभेन वरुद्धा एतच्च विलादभः पदभक्त्रये स्वात्मान्यो मागम् अग्नेभिभागम् अस्मि यज्ञेच्छम् गृध्यफलभक्त्रम् अजोस्य प्रजागान् बाली जायते ेव सविदप्रसुव यज्ञम् प्रसुव यज्ञवयम् भगाय दिव्यमयम् धर्मः चरतो नः पुनातु मध्यस्वदामिनः इन्द्रस्य वज्राशरात्रघायम् नृत्तम् मध्याह्नान् आयस्य मप्रभय मातरम् यस्यामिदम् यत्सम्भवनमादिने सदस्याम् न देवस्य विचाधर्मसामिषत् अप्सन्त अमृतमत्सृहे यजमतामृतप्रशस्तिश्वनः स्वागर्भागर्भागम् धर्वात्सप्तविकंशतिः हे अग्रे अश्वमायुञ्जन्ते अस्मिन् जगमाचभुः न्तयम् राजगुंसेष्ठाक्रमाजिष्ठा क्रान्तमधिष्ठार्थमश्यङ्करो निन्त्रान्त सञ्चरन्तो धूरेः पलत्रीयः पत्रयः पालयन्तु देवस्याहंसमिदप्रथमेक यद्पतिनावा जलिदाभाजम् जेम् देवस्याहवंसमिदप्रथमेक यद्पदिनावा जलिदावयच्छन्नातकम् गृहे यन्दाय वाचम् वदतेन ब्रह्भाचम् चापयतेनम् द्रोभाचमजयते अश्वादिनिवासि निवाजे सुवाचिरे वच्चस्वानाम् तमस्तु अर्वादिसप्तदशिवाच्यशिवाजिनोराजन्धापतमरुताणाम् प्रथमे चिवचनानि समर्थनक्तभ्ये दाष्ठानाम् गच्छिनो नो धरे विप्राहवृतारज्ञानाः अश्वमध्रप्यपदमालयभ्रम् दृष्टायातपतिषध्ये वयानैः विश्वे हृन्वन्तवाजिनः तिरत्रवत्सहस्त्रता मेधदाताशिष्यवः महोदयत्रयुम् समिषेऽिभ्रिय सन्ना भवन्त वाजिमहलेषु देवतावत्स्राः व्यम्भयन्तो हिम्भ्युम् लक्षाकुम् पितनेयवीवाः केशस्य वागेक्षिगणिरन्यजिग्रीवायाम् भद्रो अभिलक्ष आसने हिक्रामसन्तवे तत्प्रसामङ्गागत्यम् वापनीफलयद्रमदत्रयप्रगर्भिनः शयनश्चातरित्रतः आवाच्च प्रसमोजयम् जाता पृथ्वी विश्वसम्भो आमा गङ्गाम् जगदा मातराशासो अवदत्पाय गम्यामासे वाजिनाभाजि द्वौभाजकम् सरिष्यम् द्वभाचम् ज्येष्ठम् स्वभृहपदे भागमवजेघ्यदपाजिनाभाजि द्वौभाजकम् सदृभागम् द्वर्भाजम् जिगिभागम् स्वभृहपदे भागे निमियम् वत्सा सत्यासुधा भोग्यामिन्द्रेण समसद्भवजे निवदमनः प्रदयेन गम्भाजम् विवच्य घ्वम् चर्कस्यमभिक्षत्रस्य यौनिरभिजायैर् हितुगोरोभावहं नाभयोस्तुवार्यश्च प्रभवश्चाभितश्च कृतश्च शुभश्च मोध्यायधिष्ठियश्चाञ्जानश्चाञ्जश्च भुवनश्च भुवनश्चाधिगविश्च आर्य यज्ञेन कल्पतां प्राणयज्ञेन कल्पता बालो यज्ञेन कल्पनां ज्ञान यज्ञेन कल्पतां चक्रु यज्ञेन कल्पता विश्वात्रयज्ञेन कल्पतां मनो यज्ञेन कल्पतां रा यज्ञेन कल्पदामात्मा यज्ञेन कल्पदां यज्ञो यज्ञेन कल्पदा गुन्तुरद्यवागुम् अगन्मा प्रजा अभोम प्रजापदय प्रजा अभोमतमहं प्रजयागमया प्रजासमहकुम् रायस्पोषेण संमया रायस्पोषोऽनायत्वायत्वारभिप्रे आयत्येवम् प्रसृष वेदेषु राजा नमो श्वस्रो अस्मभ्यम् मधुमतेर्भवन्त वयम् राष्ट्रे जायानुबुलोभिताः भारस्येवम् प्रसमहाभोजे मा जलिश्वाभुवनानि भुवनानि हरिराजम् हर्येण प्रजालम् प्रजाम् पुष्टिम् वर्धयमानो आत्मने भारस्येवाम् प्रसभस्य श्रियतिरमिमा जिश्वाभुवनानि सङ्ग्रामानि हरिसम्बन्धापयवप्रजानम् जयम् च न सर्ववेहान् नियच्छलो अग्ने अच्छामदेहनः प्रतिमत् सुमनाभवान् प्रथम यत्र भुवस्त्वम् प्रणमयच्छस्त्वरि यमा आदित्यागच्छम् ब्रह्माण् च बृहत्पदिम् देवस्य स्वाशविदपृगवेन बाहुभ्याम् ओस्ताहस्तान्धरस्पत्रे वाचो यन्त्र यन्त्रे नाग्ने स्वाधानम् ग्रहाज्यैनाभिन् हग्रे कालाक्षरे नवाजमुदय गृक्षिनोद्यक्षरेण प्राणापाणामुदरेक्षरेणत्रेण लोकामुद्रे अक्ष्मस्तरक्षरे नगरपदप्रसोन्द्रेण क्रोषापञ्चाढाक्षरेण वन्दे धाताजलक्षरेण नरतोक्षरेण सर्वदा पुरुषत्परे मुदलयं गृहात्पर्यलक्षाक्रयेण गायत्री सर्वदा चतुर्दशाक्षरेण चतुर्दश ज्ञमृदयन्ना यत्या पञ्चदशाक्षरेण पञ्चदश जत्वमृदयन्न षोडशाक्षरेण षोडशज्ञत्व मुदजयत्परि सप्तदशाक्षरेण सप्तदश ज्ञमृदजयत् उपजामगृहेतोऽपि विभरम् तादृतम् भवन सुरविन्द्राजष्ट कसर निन्द्रायजुष्टम् ग्रन्धाम् नेषदेयो निन्द्रायत्वापयामभिधेवाभिपृथिविषदन्नाम् दरिक्षसन्ना कसलनिन्द्रायजुस्तम् ग्रन्धाम् नेषायत्वा ये ग्रहाः पञ्चदी चित्रः परमजाः ते यत्त्व सप्तमुजितः यामि समग्रहेशयो निन्द्रायत्वा अपागुङ्गसमुच्चयम् समाभृतम् अपागुङ्गयतम्बन्धान्य सममेश देयो निन्द्रायत्वा कयाभिम् कर्मदाय सविधराय तत्र यत्सन् मनोदयत्सायश्च्यन्वोषेन सर्वतापः अन्येन्द्रगुम् रोदशी वावधाने अन्वापो अभियमानम् अनुप्रेताय महेन्द्रियाय भटादेवीश्रवणद्रात्ये हमक्षत्रमनुपभागिक्षत्रेन्द्रदेवाभितुना ऋतुपत्ये महामश्रवणम् चक्षामलञ्चलमले पतिः निवारणसख्यविशाखमेतमभ्यसम् हरिप्रियम् देवे तु गच्छति देवो देवान् क्रतुना पर्यभूषतु अभ्यपेतान् ब्रह्मभ्यमन्त्रापजनाभिन्द्रः आचे मरेन्द्रोद्युजतमन्यभोजस्तनाः ितम् न प्रसुवे नायते सव्य अत्यन्तमुखे प्रभ्रवामभयविन्दस्तुवन्तः आतोभयमार्गे तत्परिष्ठा चित्साहि प्रापु किम्बतूनाम् इन्द्रयच्छमश्च्यन्तद्धर्यप्रयन्ते प्राताजुम्भवाम हरिन्द्रमा हरिता वयम् उपाहिरता वसुनापृतत्वा प्रयच्छदक्षिणा तव तद्याता वज्रे पषभत्सुराक्षुष्णे राजातवमतावाः हत्यनियज्ञायद्ध्यापयजमानायशय्याः इन्द्रः पुत्रास्वभागम्भो विश्वेको भवत विश्वेनाथधान्वयसो नभयन्त्रणानुभुरे यस्यामः तस्य लयगुं स्वपदौ यज्ञ यस्यापि भद्रेसौ मनसेस्याः स पुत्रा महास्त्वम् इन्द्रो अस्मे आनाक्षिद्रे या धर्मदेवाय कोशमर्चता अहीन्द्रे तितुलोकत्सङ्गे समत्ववृद्धः अस्माकम् नभन्ता हिता न भवन्तामन्यकेतासन्वतु ओ हनुमन्ते पुतोकपालन्यद्वदिखेण दक्षिणाले प्रत्यञ्चायाम् चेत् कृतमेकपालम् कृतम् वा कृष्णतो सम् दक्षिणादे हित्वाञ्जुषा नेतभोधय विष्णत्यपि भुञ्जे मम ब्रह्म सञ्चकारादित्यञ्च्यो दक्षिणाज्ञालये शकपालम्ब मनो भरी दक्षिणाज्ञे सौमीयमेकादशकपालगं जरन् दक्षिणैन्द्रमेकादशकपाल भयी दक्षिणाज्ञै च भक्ताकपालभयीन्द्रं रक्षभो भयी दक्षिणैन्द्राज्ञं द्वादशकपालं वैश्वदेवं चलं प्रथमज भक्तो दक्षिणा सौम्यज्ञश्च मागञ्चलं वा दक्षिणा सरस्वै समगाव आग्नेयमस्ताकपालन्यत्र परिसौम्यम् चलकम् सावित्रम् सातशकपालकम् सारस्पतञ्चलम् पौरत्यञ्चलम् मारुतकम् सप्तकपालम् वैश्वदेवी मामिक्षाणाम् द्यावापृथिव्यमेकपालम् ऐन्द्राशमेषकपालम् मारुदेवामिक्षाम् मारुदीवामिक्षाम् चायमे शकमालम् प्रभात्या हवामहे भरुतो यज्ञवाहत काम्भेन सजोषतः मोढो न इन्द्रपुत्सु देवास्तुष्मते सुस्मिन्नमया महे कलमेषु यज्ञा हरिष्मतो भरुतो वन्देगीः यद्रामेकदलन्यसभायान्य यत्सोद्वेदव्य वयम् यदेकस्यापिधर्मणिकस्या वैदनमधिवाहा कर्मकर्मकृतः सहभाषामयो भुवा एवेभ्यः कर्मकृत्वा सम्प्रेतसु दानवः अग्नयणे कवचय पुनोदाशमश्चाकपालति साधपुंसौर्येण्यक्तान्मरे सर्वासाम् शुद्धे सायन्तरम् भोदापदुना पुनरापदाने पवित्रीणापहारि समोज्यपुंशलक्रतो निहार्यन्निमे निखार हरामिहाहरामि निखार मदभ्यक्तेभ्योडाजकम् सप्तकपालन्यल्परिटकम् दोर्गेनाध्यदाकपालन्यर्परि सौम्यञ्चरगुम् साधिष्ठम् द्वादशगालकम् द्वारस्पतञ्जलम् पौक्षञ्चलमयीम् राजमेकादशगमालभैम् महेश्वरम् मनमेककपालम् सोमाय विजमते परोणाधिकम् शक्यमानन्योधानाश्चितेद्भ्योऽभ्यं समेतच्चेतभेतवामन्त्रे पितामहः प्रपितामहगेत्त्वान्वत्प्रतमासा भाकम् पञ्चद्भगुम् कृषम् कृषन् बालयम् मठवन्मज श्रीमहि करोणम् पोन्नवम् सुरस्तु सोयाधिवशा प्रजानविन्द्रहले अक्षन्नमीमदम् शक्यः प्रियासोचन अस्तवशस्तप्रायमिच्छयामती प्रजान्विन्द्रवेहरे अक्षम् पितलोभि पदन्तपितलोभित्रपन्त पितलोभिजन्त पितलः हरे सिदलः स्वाम्यागम् धेरे पतिशक्रोर्जेः पुनः क्रे लक्षाजीवसेन न्त जले मुदस्यान्मातरम् पितरम् वाजेमातत्पादेन परभार्यप्रबन्धारमामनेन सम् त्यैकमले कञ्जाब्यात्मस्तेभ्यकमलम्बोनागुम् शर्माभिम् वैजमाणस्यैक एवरुद्रो नीयायश्च आसत्य रुद्रमसप्तञ्जुरत्वैतरेद्रभागस्कात्वम्बिकजासञ्जुरत्वभय जलन्तरेष्वार्यं सुखे लङ्क्यथापदे सुखम् मेतान्यम्बकम् कृता भक्करत्यथा नवत्य भक्करत्यथा नकरत्यथा न्यवसायिनायम्बरम् यजामहे सुबन्धिम् भक्ष्यवर्धनम् उर्वाबन्धनान् मृत्यो मुक्षेय मामृधार केसरेभागस्तनामृदेन परममोषमतो जेक्ष्यवतरम् वादिनागः कुक्षिवादाः हीन्द्राजं पादजगवालं वयेष्टदेवं चलमिन्द्राय सुगवारं वायव्यं पयस्तौर्यमेकपालं पादश खलु तेरं दक्षिणा नेशमत्याकपालन्य महीन्द्रं दशिवादनं यं महिने धं दक्षिणाय देवा पुनस्तवादिने रक्षिणे प्राप्त सदत्तविदने प्रामुत्तर उपरि गत्वा प्राप्तेन सान् स्वाहां रक्षत्रतुं रक्षयितुमानगं रक्षा यज्ञे रक्षो स्वाहायमाय पवित्रे वरुणा यमृहत्पदये सुरपदे स्वाहा दक्षिबालेर सौदक्षिणा देवच्छासमितप्रदये रक्षिणा बाहुभ्या क्ता भातुम् लक्षसो वसन्त्यहो निहततुम् लक्षो वधिष्वलक्षो पुराणा शवादशगवालं जन् प्रपच्चमस्यै शरम राकायै जलगुंशिने बाल्ये जलम् पुै जलं वि दक्षिणारज्ञा वय सर्वमेकादशगान्यपच्चेन्द्रादे सर्वमेकादशकपालम्बे सर्वं दृगपालम्बा मनोमये दक्षिणारज्ञे भौमिकादशगाल्यप्रभेन्द्रा भौमि जमेकादशकपालगम् भौम्यम् जलम् दक्षिणा गोमा प्रवोक्तञ्चलम् निर्भवत्येन्द्रा भवोत्तञ्चलम् प्रवोत्तञ्चलं नृश्यामो दक्षिणा वेष्वाभरम् बालगवानन्यर्भवधिरन्यम् दक्षिणा वारुण्यमयञ्जलमस्व भारतपत्यञ्चलन्य ब्रह्मणा गृहे गृहवृत्तो दक्षिणेन्द्रमेकादशपालगुणराजन्यस्य गृहसभो दक्षिणा नित्यञ्चलं महिष्ये गृहे धेन दक्षिणां परिभृत्येभ्रे कृष्णाना नगरभिन्नम् कृष्णा कोकादक्षिणा ज्ञेयभत्ताकपालकुं देहान्य गृहे हिरण्यं दक्षिणा भारमन्दशकपालकं गोतस्य गृहे क्त्वा दक्षिणामारुतगं सप्तकपालङ्काम्याक्षिणा दारित्रङ्गादुगपालं भक्तं द्रवक्षिणाकपालकेतुर्भेवाच्यो दक्षिणामो दक्षिणारोद्रङ्गादे भवतेन्द्रायातुं भवते राजा वृत्रहाराजा भूत्वा वृत्रं वध्यान्मये भवति श्वेतावत्ताय दुग्धे स्वयं भोक्ते स्वयम् अधिराज्रा स्वक्षेता स्वयो कन्नायिषा काले कर्णागश्चाकर्णागश्च तन् मुदानि विचिनयाद्य कर्णा त्यो यन्मास्त्राभये स्वयम् गताभेद कृपवेस्वयम् जिवान् भर्गे स्वयम् कृपरिवत्वैवयता श्रयतवत्ता दक्षिणा अगले गृहदे प्रोडाशभट्टागपादनुपति कृष्णां वृहेणागुं सौवायवक्पदये चावाकं चलगुं सवित्रे शब्द्रसवाय रोडाशं पादजगपालपाश्रेहेणागुं रुद्राय पशुपदे कादे सुतञ्चलं जदये पातस्पतगेनैवारं चतुमिन्द्राय ज्यैष्ठाय पुरोडाचमेकादशगारं भावग्रेहीणाम् य सत्यायां बालाञ्चलं वरुणाय धर्मपदये चलगुण्तात्पा प्रथमानागुणे नागुण्डप्रशोनां गृहमिन्द्राम् श्रीसत्यां वरुण धर्मपदेवाचय वधुमत्सहि ममामुष्टाय नमः य महताधिपत्याय महते जाने राजा प्रयत्यन्नामराज्यमधामकं वरुणत्या भोमा मन्महि महतवरुणत्याभोमन्यमेत्रय वेदराधिमताधीशतो हृदन्तया हृदय नव्यतो ष्मात्रमालेष्मा नेत्रानन्दवधे क्षेतस्थापाम्बर्यर्विषदेनोज्यमरुतामोदप्रतोल्यमक्षतप्रतोल्यप्रशतसमान्दाः प्रभा पृथक्पयेदश्च जनवृदः च यस्यास्थापामोदधीनासंमृतस्तापो देलेयम् मधुमतेर्यम् भग्नो यस्पदीना चतुयाचितानाः नाभर्नेत्रावरुणामभ्यकम् च नयाधयम् गमनयम् दत्पेः बाष्कलास्त्रम् दत्तः लाष्कलास्त्रमोष्णे दत्ताः भक्तम् मसुमदे मसुमदे ऋषिव्यब्रह्म हि वक्षः क्षत्रियाय वन्वानादृष्टा श्रीरतोजेर्म हि वक्षः क्षत्रियाय लभते अनषष्ठमभिमश्च त्वमपि शुक्ला शुक्रेण पुनराय चन्द्राश्चन्द्रेणामृतमामृतेन स्वाहारादतो यायचिताः अथ पाम् एतानिवसानः भक्षासुलक्रे वर्णस्तदर्थवन्तः क्षत्रस्योल्पमणि क्षत्रस्य योनिर्गिरवधिराभिन्न इन्द्रा बन्धश्रमाविन्द पूर्वा विश्वमेदाविन्दौ निद्रा वरुणाधारिन्ना जय जिरिजरेन्द्राश्चय महते क्षब्दाय महताधिपत्याय महते ज्ञानराज्याय भरताराजागो राह्मराजेन्द्रवद्राधिलात्राभ्यक्तजायं वत्रं वद्या शत्रपादरात्यञ्चमा जीयञ्च मन्वञ्चम् मापादृभ्यो माध्वाभ्यः पादयेण्यवर्णागुजतारं विलोके यत्रो नागो विरत्यां वरुणो यत्र जगत्प्रक्षासामधिकिञ्चितिम् च अभिसमाजक्षगाचक्रे स्वाच्छन्दसामवदत् सोमादं जयगुं सामाख्यदेवता ब्रह्मद्रविनमुद्रामादिक्षाछन्दशामवद पञ्चदमाभिेन्द्र देवताक्षत्रञ्जलिनन्द्रिया न मातिष्ठ जगदे त्वाच्छन्दसामवद सप्त सम वै रोपकं साम मरुतदेवताविद्रविणमुदी देवादिपाच्छन्दसामात्येकविगुंसत्त्वा वै राजगं रामवित्रा देवलाभयन्द्रविणमो भ्रामादिष्टपञ्चिस्वाचन्द्रणवत्रैव ते कामलेदपदेवलाभो द्रविणमेकम् चाह्याविञ्चैकालिञ्च प्रच्च नितश्चतम् इतश्चतभारः शुक्लज्योरिष्टचित्रज्योदिष्टसत्यज्योरित्यज्योतिष्मादिष्टदत्यश्च तमासात्यगृंहाः ये स्वाहा भोमय स्वाहा पवित्रे स्वाहा स्वाहा गोष्टे स्वाहायस्तरे vahendra yathpa bhogad yathpa strokar yathpa gunaj yathpa bhagayathpa eh chakravarthe mahavidyayathpa rakshanyathpa bhirath yathpa suryathpa tandavaseh anakratre yathpa gyatvam bhavish yathpa vanam pagad yathpa sada ghar yathpa vai pare yathpa vare dh त्रिषत् पितमे त्रिषद्भोजा नेष्टादम्भ्ये एभाषकम् सुबन्धान्ते गन्धान्ते चक्षुस्तुवन्तान्तेष्वत्रगुं सुगन्धा गुण्डान् यज्ञे चैकसातो क्षत्राणा क्षत्रपति रक्षि जिवस्तारि समावभृत्रन्नम् वृद्धिनमलसञ्चरम् ज्येष्ठा पर्वतस्य जभस्य वृक्षेण ैत्रयेतमधिमधिजापदयन्याविष्टा जाता योगामानक्षै मम समयज्ञस्य इन्द्रस्य वज्रात्र न्यत्रजायम् लत्रम् मध्यान् वित्रावर्णयात्रा प्रतिगाय मध्ये प्रयोगेन वृक्षास्त्रमृष्ठान्तमधिक्रान् नवसाय मात्रम् मात्र महेन्द्रियेण वेद्येण सोमाम् मन्यो यान्नव मात्यै पृथिव्ये माहम् मातरम् पृथिवेयम् ुम् जि लम्बा माम् माता पुिगुङ्य दत्याम् मे धेत्योद्यक्षोजम् मे धे हिम् न शिवत्व शिवत्वमयिषे यज्ञै गृहपदये स्वाहा परये स्वाहेन्द्रश्चमलाय स्वाहा मरुतामोदय स्वाहा पुंसत्सु जिगत्प्रसुलम् द्रोगा वेरिषदति गोचारदशाद्रिजामहम् वित्रैः क्षत्रश्च नयो निरतिथ्यो नामासीद सुखामासीदमहात्माहिगम् हेन्नामाहिगम् हेन्द्रियपरुणः प्रत्याम् जन् ब्रह्मादि पविताधि सत्य सबुं राजन् ब्रह्माचिन्द्रादि सत्यौ या ब्रह्माबुं राजन् ब्रह्मादि मित्रादि चित्रभाब्रह्मा करुङ्गादिम् ब्रह्मादिवरुणमधित्य धर्मेन्द्रभज्विवाध्यक्षेन मे द्यनि भक्युन्द्रो मा ja matre spa han kret gravad ke spa aghera mat दक्षिणाभार पदञ्जलं मत्परे दक्षिणादायबादपालभ्रत्वा दक्षिणा दृश्यामः दक्षिणाभारञ्चलगु जगभट्टो दक्षिणेन्द्रमेकादश दक्षिणाभारन्त दक्षिणाञ्चलं भ दक्षिणायत्ताकपालगं गन्धो दक्षिणादे भावम् वा मनोक्षिणा द्योदेक्षयम् ज्य स्वमन्त्रेण च मङ्गले त्रताम् प्रयच्छय दश सर्वत्रे स्वमन्त्रेणादि भवति शतं रामनास्ति वन्ति दत्तदज्ञम् भवति प्राकाशामध्वले ददाभ्यात्रुक्लबुत्रे सम्बत्तो सप्तधात्रभ्याम् ोरितायनमग्ने भाद्रवो होरा भवतिश्रायन्तेयम् ब्रह्मशामम् भवजनाथवन्ते कज्ञाम रामगौ सी नवो ब्रह्माजे ्यम् लक्षिणैन्द्रमेकादशगालव शभो दक्षिणाभैश्वलम् जिषङ्गे पक्षौ हे दक्षिणाभयेन्द्रणे मामिक्षाणाम् प्रसा दक्षिणाभागपत्यञ्जलोक्षो दक्षिणालित्याम् भजधान् गर्भिणे मानभजे मा भजेम् पृच्छिम् वक्षौ हे वक्ष्याम्पादश्युर्गपदितः त्यराजे गदम्बुम् धे सत्यप्रसराजपुरो राजम् वायुजगपालम् चित्सङ्ग्रमम् सर्दक्षिणा ्राकबालन्यसौम्यञ्जलम् सायित्रम् पादजगमानम् बाणभत्यञ्चलम् पासभक्त्राकवारम् मये स्वाजलम् बाद जगबालम् दक्षिणाघाहवाहो दक्षिणाधारपलञ्जलम् जर्मपदि माञ्चलम् मये चलम् मारुम् जलम् खेत्रवत्यञ्जलमालेत्रञ्चलमुत्तलासवाहनवाहो दक्षिणः ेन्द्राः पुन सृजामृशुन्दौलेन सौमाच्यभ्याम् पक्षस्वस्वदेव शत्रेन्द्राणि वृत्थान्य पक्षस्व पुनाकृदेव यस्तु तपुन्दा भगुन् सौर्यश्च विहितात्वसाधमाः पायः पूरः समित्तेन सख्याम् सर्वमापितः इन्द्रश्चयव्यस्तः कुलिरङ्गयो मन्दोयवम् चित्यभाषाञ्चनभोगम् वियोजनभोजनालयपरिमिषोधमो वृष्टिम् न शक्नुमः त्वम् वेतम् छितस्य मुख्यानि नाम सप्तरम् जितमाचरण्ये अज्ञा गच्छामपि मुख्याजधानाम्बाधानाम् जात्वा धृतमुच्चरम् येन प्रथमदेवे सरस्वदेवालयेव पर्वदाता सरस्वती जगादम् च यज्ञाम् अलम् देवीता गृहदेशत्त्वनो हल्यानि विश्वे एतापित्रे विश्वर्वायविक्षे यज्ञेर्विषे मनवसा हलिक्षे गृहस्वेषप्रजा वेदवन्तो वैज्ञस्याजगोरेणानाम् बृहस्पदयामुक्षतम् सुक्रतोषम् जीवसे धान्योतिमुक्षतम् हृदेन अनवदये मेत्रावन् माहदैवा अत्यन्तः प्रोच्यङ्गिरा देवमे देवसूनाम् अपर्यन्तः पुरप्रियम् मित्रम् लक्षेण प्रशासनम् अक्षो देवदोरशोरो वा वृक्षुवासु चित् यक्षत्यभेदयज्वलमनुभुव अयजमानयक्षभियो असदत्त्वथायम् न यक्षम् कर्मक्षरम् च यक्षमाणम् च धेनवः करन्तम् च बुलम् च मत्सौभृतश्चार्पयम् विश्वपः होमारुशतङ्गशो जीवमे पाषाणोदयमानिवेश निर्मितिम् पदाकेणि कृतम् शिरेण क्रममुक्तमस्मदे सोमारुद्रायवेषा विश्वा समोषु भेदजानि सर्तम् अवत्यरम् मुञ्च न जन्म अस्ति समोषुभ्रम् कृतमेनो अस्मत् सोमाभूषणा जननादयीणाञ्जननादिवो जनना पृथिव्यः जातो विश्वस्य भुवनस्य लोको देवा जन्मृतस्य नाभिम् शिवो देवो जायमानम् इदम् देवौ समागम् शिवोभ्रामजस्त्रा आभ्यारिन्द्रः प्रभावः सन्तस्त्व इति प्रथमकाण्डः समाप्तः द्वितीयकाण्डप्रारम्भः ॐ कृष्णे समानसे सभोचिकामा वायुर्वे श्र देवता वायुमेवस्येन पाचते येनापथामधितदेवैनं सोऽयति भवत्येवाचित्वा देवते चाभुक्तैनवेश्वरामेव संगं वायवे नयित्वदायित्वा भो निमुपैत्य प्रदाहाय भवत्येव वायवे नियत्वदान भेदग्राम काम वायुर्वाहि मा प्रजानश्चौदानेय वायुमेव नियत्वं दैत्येन नियत्राणा बालफलबाले तस्य प्रजाया अपत्रामबालोनम् प्रजायेषम् प्रजान्न विन्दते बाल्यमेव नियत्तन् भग्यत्वेन भारते यमापधावतिके प्राणाबालाम् प्रजान् प्रजनयति विन्दते प्रजाभे सज्ज्वे प्राणावै वाय प्राणवानोपयोगाय मासपक्रामय श्रजकामयति वायुवये सन्त्रेणकेता प्राणोपधादयदेशाद्भवति देवत्येव प्रजापचतुर्भाषरे जा पशोन्सृजयितात्मना भवानुदक्षिदत्तामग्नोग्रन्थात्तरो परस्तमफत्वायै देवतायालभदय सो देशप्रजा पशुरय प्रजाकामपशुकामत्यान्त्रायानफेन प्रजापतिरेव यत् पुनः पुरुषाणां लोपयस्व भरप्रदश्च ग्रमाञ्जलं क्षिये यस्वा भूषणमेवश्चेण भागते ये मापधावधिकामेतात्मेव सोऽन्तजनयतस्वा नो वेले गोधा पोषापशो मान्तजनयिता सोमयेवाच्छे गोप्रशादि पोषापसोन्तजनयक्षौ दं वदाय परभ्योर्वामुदम्भयोर्परभूर्जैवामोर्जम् पशोषमरुन्धे चट्रा <mí> पराजेयायन्तावर्णवगच्छन्त्रा पुनरयाञ्च तथा आत्मैन पुनर्गथाने ैकविपादभवद्वयो वरुणे दक्ष्यां वारुणं कृच्छमेकविपादमानभेदवर्णमे व्येन पार्थभेनामधावेन वर्णपाशान् कुञ्चति कृष्णे कीतिमारुणास्मै देवा यच्छामि यत् वितीयपुंसा मयक्षेभ्यमभरत्येव अब्रमण्डेभूत्कस्मायमानस्यामयेकमेकक्ष्यम् पादृव्यावेदजाम् गामानित्यभ्यक्ता मायालभन्धततो वा प्रसत सजया यन्त्रौषधयो यः कावय सप्रत्यय वधुरत्र प्रजया यायेनामलिं वचामा नित्यैनभ्यक्षा मायालेना नित्यामेव का भग्रेन भागे यैनावधानं प्रचयं च मधुभत्र प्रजया जनैं यशा यलोचतस्मै देवाप्रायश्चेत्रिमये सन्द्रमालेधा आलभन्तात् ज्ञेयें कृष्ण देवेकं जगम् हिता महीन्द्रैवश्वन् अभिदेवात् ब्रह्मकृतकाभक्त्या तस्मागेता पदभा आरभेता ज्ञेयेन् कष्णग्रेवेकं जगम् हिता मयीन्द्रैवश्वेतां भारतपत्यामेतामेव देवताजयगेतापदावधिकादेवात् चिभ्यं भवच्चक्षे भवति वसन्ता कृष्णग्रेये बालभेजगेष्मै मध्यञ्जने जगुंसितामरेन्द्रे गुंसदान्यैश्चेतां बालस्वच्चान्द्रे निवारिच्यस्य ते जागुंजि वसन्तास्म्य मध्यंजने सद्यबलान्ध्ययामेव ते जागुम्हिताम् जयपापलम् जयसम्वत्सलम् मर्यालभ्यम् जयसम्वत्सला हि ब्रह्मास्त्रस्य प्रदात्सेवात्मये ब्रह्मवक्षसं ब्रह्मवक्षस्येव भगवति भवन्ति मे श्रीमानभेश्वरस्पति हरस्वती देवस्य न भागभे हेन दैवास्तिभाजन् प्रधा वार्लभ्यपन् मदेव भवन्त ङ्गाभेतस्य शरीरङ्गच्छामयत्यज्ञे वेलास्य शरीरम्येन विदमाश्चादीनेवं प्रजाकामक्रो मोदैरे वज्रायै विद्महे अजमाहाध्यै धीमहि तन्नो प्रचोदयात् मनोइच्छया मनोवाचनिरोहे वेदनाभिज्ञा भृते देहात् चिन्ते नभार्जित्त्वं ॐ या भवति ब्रह्म प्रथमेवानभेम्यम् अभ्रुमाणः ज्ञानं कृष्णं पुरोधाय प्रथमाना ज्ञेयो वेभ्राः मनस्सौम्यो राज्योभिरसौम्य भवत्य च दैव ब्रह्मण वयस्रम्भरे ग्रन्थालत्य कथासमानयम् ेव्यायुमदे मनस्पदे नाम प्रायञ्जमान भेदं गान्यञ्जत्रय युक्तेन भागसे जेनोपसारितेवार्थेन्द्रियं भन्यं मनोपसाध्यं ग्राम इन्द्राय महोत्त्वय तस्य दक्षमामधेण ग्रामगामीन्द्रमेव महत्पञ्च युक्तेन भागसे येनोपसारितेवास्मेकजातान्त्येत ेन मारुमध्ये योवापि सौम्यं बभ्रमानभेदान्नकामसौम्यं वामदेव स्वाहन्नं प्रयच्छादयद्वान्नस्य लोकं प्रमध्ये दौण्यं बभ्रमानभेदयमनगौ राज्ञायन्त ेनकं राज्यं न मिल चेतस्यैकस्य लोकं समृद्धामेव गच्छायाभिमालिज्ञ नाम प्राविन्दमानभेदयपात्मना भेदस्या स्वात्मा वा अभिमानिन्द्रमेवाभिमाजिहृच्छेन भागभे येन आत्मानमभिमानिं प्रणतैन्द्राय मध्ये नाम प्रालिन्दमालभेदयमलकम् राज्याय बन्दकम् प्राज्यन्नापनमे इन्द्रमेव वज्रम निश्चयेन भागभे येनोपधा भवत्या हिन्दौ वैकलं राज्यन्न मे मलामप्रालिङ्गभा रोचत पस्मै देवा कायश्चित् मय सन्तस्मागेताञ्च शमानसन्दतगेवादसर्गच्छतकामस्याेताञ्च शभामानभे बाहुमेवादित्येन भारते केनातगेवाख्यन्द्रम्भरच्चसन्दधा विब्रम्भरक्षस्येन भवति वसन्ता ललानामजग्रेष्मै मध्यंजिने त्रीं च वृत्तान् शलद्यमलान्त्रीं च दिवालान्त्रे निवाहादित्यस्य तेजागुञ्जिवगुन्दाेस्मे मध्यंजिने शरजबलान् जैवावं देव तेजागुन्धितावरुन्धेत्रयत्तया लभ्यन्ते अभिपूर्वमेवास्मिन् चेजोधादिवत्तरम् भ्यं देवं मत्सरो मे ब्रह्मवक्षरस्य प्रदाता संवत्सर एवात्मने ब्रह्मवक्षरं प्रयच्छति ब्रह्मवक्षस्येव भवरस्य परस्थापत्यङ्कव्यमालभेद प्रजापति सर्वा देवता देवता एव ौम्या वै देवतया पुरुषौ स्नास्पस्त्व देवतया पदुषत्प्रजं गो दिनश्च भवति देवाश्च वै यमश्चास्त्यं लोके पथं जक यमो देवानामिन्द्रियं देयमयुमद्रमस्ययमत्वं च देवानमन्यन्त यमो वायिनमभो त्मनमुक्षवचो जन विवेदवादयेणे भजामानसन्त्येन्द्रमुक्षाहं संवरुणे नैव ग्राहयित्सा विश्वसन्त्येन्द्रे नैवात्ये वञ्चदयाभ्याञ्च तत्पद्धमानादे भजामानभेदैन्द्रमुक्षाणं वरुणे ृत्वा भवन्तान्द्रो मन्य समुच्यता ज्ञमानभयैन्द्रहं सत्याग्रह प्रेमभागते येनोपसुगो तच्च मानवैन्द्रेनात्यच्चैनभागे हेमावसः पाप्पानवः क्षेन्द्रेण संसत्यै मुश्च पात्मना भरक्षेमध्यावाग्ल्या हेममानवै सज्जोगवलुद्धनयो प्रदेक्षितो श्रीरजोगवलुद्ध्यावाग्जुलिः येन चैनभागचे हैमावधान ष्ठां गायदप्रत्ये भवति परिहारे भक्षे दक्षात्रं योगद्योगमरुद्धस्तमैवायव्यं भक्तमानभेदवायुर्वाणयो भक्तिने वा एतस्मै लोका अपशुष्काभिरवसुष्काभिद्योगवरुद्ध वायुमे वक्षेण भागजावधितये स्वाहिमान् लोका वयदिप्रात्मा इमे लोकास्तुमन्दिभुञ्जक्षेणम् यदुपतिष्ठते इन्द्रालस्तवि नमको नयमुत्तमः पशुराभेर्थम् वृक्षम् परिभङ्गच्चो दक्षिणस्तगम् सहत्रम् पसो मोदायन् परम् नत भवत्यः पशुराभत्याक्षयेतमेन्द्रमम् नतमालभेतेन्द्रमेवत्येन भागजय नेतासुरन्त्रयच्छमानेन भाक्ष्यम् पशो न यदा सहस्रं पशोन्तां वामनमालभेदसहस्रमध्ययच्छ वामनसमे पशुभ्ययेन प्रजायभ्यप्रतिष्ठां तथा निकों पशोन् प्राप्तमित्याहरभोदाण्येव सहस्रकं सम्पाद्यानभेदपशवो माहोदात्राणि पशोमेन प्रजातान्तमयत्योषेभ्योहगमालभे प्रजाकामवोडयोगायतं प्रजाये परिपासंयो प्रजा एतं प्रजान्त इन्द्रयोखलोकमपेभ्यं जया मे होडजे प्रजान्त ोषयत्पुरुषामेव यैवयश्च नाक्त्वा वासप्तम् कति चैन्द्रे गोगवकामालभय करो च कामो च प्रोरागेशय लम्भ प्राप्नोमें शङ्खद्वारावशाफिन्द्रैवैनं भवत्रैवशालशे कैतद्वावदयञ्जयम् साक्षादेव े तस्य स्वामकेश्वनः सन्नाथे हा पुरुषाक्त्वा भागधेनादेवामगेशं प्रेत्रसौरेण स्वामकेश्व नमधिं श्रियं वेश्वामकेशलीं श्रियमेव स्वामकेशमलं जय जय भवत्या ज्ञेत्रा भनस्वामि कृत्वा भवति पुनरकृत्यन्तोताधितमाजगाक्तिमाच्छतोमीयत्वयोगा भवति लग् मयम् बजयत्रिमात्यम् वैभेदगरिष्मभिनत्यैवैनम् प्रत्यगुंसित पृथ्यमानसे लब्दामगामयक्षापयेत पृच्छगुंसमानानागृत्यामि बृहस्पतिमेवस्य न भागसे येन पृच्छगुंसमानायानां कला ग्राम्ये भगवति यापमध्ये भोष्ठगृश्यापमानभेतान्नकामावे भूषाभूषणमेवत्येन भागसे येन प्रयच्छत्यन्नाद एव भवति श्यामाफलश्चेतद्वान्नश्च लोकं समध्ये भारुतं वृष्ट्यमानभेतान्नकामो अन्नम् दे मरुता मरुत एवस्येन भागे मासामधिक एवत्मान्नं प्रयच्छन् जन्नाद एव भवति प्रत्य फलच्चेतद्वान्नश्च लोकम् समध्या हैन्द्रमर्णमानभेदेन्द्रिय bhagavata jagannama bhagavati devatma indri gandharaye indriyabha charanah bhoma mukhe lal va indra astro gamam samsthey na ्वस्तमानभेदै प्रसदानमेव चैन भागधे येनोपधानेनात्मै सयम् प्रसवदिदानगामास्मे प्रजाभवञ्चलब्ध्वस्त्व भवतिता वित्वा चैतेवं प्रभवोपालभेदाञ्जगामा वैश्वदेवं वामेव देवाञ्चैन भागधे येनोपधान प्रयच्छन्द्यन्नात एव भवति बहु लोपफलति बहु लोपाद्यक्षन्धकम् समध्ये एवम् बहु लोपमानसेन ग्रामकामा वैश्वदेवावैषजाताविष्वामेव देवान् सेनभागश येनोपधानगेवास्मैष जातान् प्रयच्छन् विग्राम्येव भवति बहु त्यन्तो बलवान हे जयस्यानाः ज्ञापनिमज्य गामये प्राजापत्यो वेदप्रजापदे खलु वेदस्य च जयस्याना ज्ञाननिमजगामयि प्रजापतिमेव चैन भागे जयनाथ विषये वैनम् च स्मान्मुञ्चरितो वृत्कालोगाय श्रियेशिलक्षिनप्तये पलापदत्तम् गृहत्वजलुमा गृह्णा वजापलभ्यो द्विजेयः पलापदत्तम् विद्रावरुणा गृह्णे का गन्दाद्योपा वजापलभ्य श्रेयः फलाभदत्तम् विश्वजेलामाग्रन्हान् सापलोपा वजापलभ्यश्च लक्षः पलाभदत्त श्रे त्याघोषित वृष्टाम्भकामो चेस्मिन् भवत्यशाहत्यक्षे भवधिलोकामानवृष्टिकामा मैत्रं वात्रज्ञा वे मित्रावरुणा देवारायणसापावधिकादेवास्ता छन्द्रे वृष्टिच्छन्दतारसं वृष्टि मेत्रा वरुणेन्द्रो मालभे प्रजाकामो नेत्रं वा हे रात्रित्राभ्या खरुणे प्रजा प्रजायन्ते मित्रा वरुणाय छन्द्रजासन्दे परसे नरं प्रजापन्धेश्वदेवं वा अन्नम् विश्व yena pasavala ditayamaa bha annam rechayam jana eva bhavitam samma yeda go vipasala sakyavathana annam sammasa eva varasena savanna varam chetujete ेवन्दसामेवंशजातां वायस्तमुवशलाकेन भागसे यैनोपधावजितवच्छतं दधानि ब्रह्मवच्चस्यैव भवत्यैन भागसे यैनोपधावस्मा येन कालकाष्टिमाचरि भवति रौद्रेना ै श्रव जोसा भव जग्रामे वज्रमेवायम् भविकृष्णा त्रयलेन प्रेभे जगयुद्वाभिनत्रयलेन त्योरव्यजसस्त्वे देवा प्रायश्चित्रमेतानुरेकेताम् भजामानभन्धकेवाजपद्याभगामस्यानुम् सौरेजस्येताम् वजामानभेदामेवाभित्यग्रयणे मामेव ्रह्मलक्षतं तथा ब्रह्मलक्षकेन भवति नैरो ैवै योनो वनमे चत्सलवे योनो विस्ममे वत्सेन भागभे यनापधावज सगेनास्मि यक्क्षम वेच्छतु वेन योनोदिवावना भवदिमयश्वरस्य सगेनापधावज भद्ये क्वाष्ट्रमे वना भेद वसुका भक्तकारेलुनाम मिथुनानां सज्जनानां पुस्तकामे वत्सेन भागभे यनापधावज सगेनास्मि वसुनाम मिथुनानं सज्नयदक् विष्टाशेषां सङ्गलवत्राक्षादेव प्रजां प्रसो नवन्धयत्रज्ञेतमानभेद्रामे संेतमय काममित्रमेव त्रेण भागजयभावेन मित्रेण सङ्गयज विशालो भवतिव्यवसाय चभत्यं वृत्तमानभेदृष्टि प्रजापतिर्वेमित्याशी प्रजापतिनेन त्मै पर्जन्यम् परिशयति कृत्वा भवत्यैतस्यै वृक्षे रूपकम् रूपेण नैव वृत्तिमवरुन्धे समलासबलिवृत्युतमेवात्म्ये जनयित्वा परिषयच्छासबलिवृष्टिमेवात्मै नियक्षते अरुणगङ्कृषुपानमन्नाद्यन्नपानमख्यगेनाम् पादुम् कृष्णाम् दशापदस्य प्रागस्ताये देवचारेशमन्नाद्यपालभद्यवलमन्नाद्यायपुन्तमन्नाद्यन्नापलभेखेकाम् पादुरे कृष्णाम् भजामालभे रवर्णमेव चैन भागे लेखोपधायवात्मयच्छत्यन्नाथ एव भवति ये तव देव दका समधे मैत्रजस्य समाना भेदवारुणं रक्तमहा इंद्रौषधेनाञ् च वा उन्नगामो मैत्रेर्वा ओड्यैवारुणिनामोकांञ च फलवा ओघतेनाञ् च लोपशेवाम मित्रवरणा देवश्चेन भागज्यामनुधारवजिता देवार्भाञ् च यत्तो नारगे महवत्त्याञ् चौषधेनाञ् च वन्धावालभनभयत्वा भवतिभ्यै चै नेत्रज्ञामयाक्षादेवेणैव देवादेव्यन्दाविन्दां मृथुनै पश्चन्तीनावभ्योलाभा िलादेशिकामत्या प्रजया वेलम् िनौ मे देवानामोक्षिणा युज्यं त्वा भृगमालश जयमय शिवागुंसमभिलगुंस विलगो दावां वागच्छ जयमय सेवागुन्दमभिलगुंसन् जनेषभ्राम्य प्रसूर्णारञ्जय त्वा भृगवणे वैभद्रामेनालं जयमय सेवागुन्दमभिलगुंसन्ति वायु वै देवायुमेतसागे जैपेण देवाले आत्मानम् प्रविशयच्छो नायतिद्युप्तेन भागे ये वा आत्म आत्मानमपहम् यत्सवेत्ये द्युत्सन्ते व्यक्तच्च फलम आत्मानकम्भते इन्द्रम् वा विश्वम् सामकम् एवम् सुखसन्दे व्यञ्जनम् अग्निम् यन्त्रम् मरणकम् सातये श्रियशेवम्नः हेदाश्रीमन्त्रयिक्ष्मो विद्रेण प्रियश्चमारुतस्य धाम्नः अज्ञस्तरभिरक्षरुद्भिधातुम् स्वामरुद्रियाभिःभ्यः समादित्यैरणाधिज्ञपचन् यथादित्यावसभ्यक्तम् नभोवन्मरुध्ये रुद्रा समचानताभिः ङ्गा निधये हरिवन्तस्यन्तवः भव्यामानुजानाम् च त्यावस्तो यमभुद्धवया सुरीरः भवय आदित्या गोविरक्षादेवादिष्टभुवनस्य गोसाः रक्षमाणा सुलानि श्रियमाणा जनानि दित्यादिशामहे पुनरेकानुकेन प्राचेण आदित्या त्याम् आदित्या नामेन वर्णस्तु हेहवमध्यायमिनया वामभक्लनाशकेण तत्त्वायामि ब्रह्मनावन्दमानस्तदानो प्रजायन्द्राज्ञे प्रजापजल प्रजापाभुक्षदादशगपालव श्रये प्रजा जगता प्रजापगोहलं प्रजा एषन्द्रयान्द्राज्यमेकादशगमानन्द प्रजाग अगनि देवत्सना भाजे जनम पदादिता देवास्मि प्रजां प्रजाधायतो हिन्दते प्रजाने नाथय कासिवा लंजमते वर्धमानः क्षेत्रे वासुजा जनगनि आगनि देवत्सना भाजे यनापसाव गिना जमेते जीवं जीवं साधुजस्तं केवि महात्मना यस्त्रामोहप्राक्षेन्द्राज्ञान जगपालयश्च ग्रामोहप्रयाश्चन्द्रेन्द्राज्ञे देवस्तेन भागधे येनपधापदिका वेवास्मिन् इन्द्रियं धीर्यं धस्तरेन्द्रियेण धीर्येन भक्तयानकं सङ्ग्रामं पिवारन्द्रियेण धीर्येन सङ्ग्रामं च यत्रय राष्ट्रमेकाशिगमानन्द्रमे संग्रामं जित्वेन राज्ञी देवस्तेन भागधे येनोपधापतिका वेवास्मिन् इन्द्रियं वेर्यं धत्तोमेन्द्रियेण वे भगवानेतस्मादिन्द्रियम् वेर्यन् जनता मेन्द्राख्यमेकाथवान् च त्वरे जनता नेक्ष्य इन्द्राग्नितत्त्वेन भागजय जयधामनिकामेवानस्मिन् इन्द्रियम् नेर्यम् सप्तप्तेन्द्रेण वेरिकेन जनता ने पौक्ष्य दोषा वायुन्द्रियस्तैर्यश्च प्रदाता दोषणमेव चैकभागे वा इन्द्रियम् गेर्यमप्रयच्छयक्षैस्तवत्यम् जलम् सर्ववे जनताभागक्षेयम् वेक्षैतश्च परिहत्यामेव परिष्ठत्यैन्द्राष्ट्रमेकादशमायमुपरिक्तान् सर्ववेदस्यामेव प्रतिष्ठायैन्द्रियम् देश्यमुपरिक्ता दात्मन्ध ष्टाकल् ज्योदृषपोर्णमासगासे सन्द्रमाभाम्बर पूर्णभाष्ये स्वाधिपादयेसघाशी सन्द्रमाभाम्बर पूर्णभाषे स्वाधिपादय तैलेन ैवमानं भवत्य रक्षागं विषयभागे निषिता निषिता जागुरक्षागं प्रेरते रक्षसामीवाक्य भवतो रक्षसा विकृत्या यदासमष्टाकमा लेदास्थ्य भोरा यद्वद्रस्तस्मा येन भोदासमष्टाकपा लञ्जन् भवेजयुधीजालभिमवेतजैनास्मि भैशङ्करो भवति पूजे गन्धस्यागच्छ त्याकमानन्द्येत् सङ्ग्रामे संयत्ते साधे समयेभ्यम् तिव निषयम् परेशाम् प्रथमेके हृदकम् सङ्ग्राम महिला मेधये चानुत्य विजयधाना परान्वञ्च प्रमेयन्ते दुर्गाभुदर्शस्य प्रेमभागय श्याममते अवकाशमत्याकमानन्दम् वेद बाय द हेगे निमई नकं समागयति सा कुलारि स्वपरप्रज्ञे विलाये स्यस्य सग्रानुस्य देयस्य ग्रहाम तन्नयः खावदेवोरा समस्तकपारं जन्मवेद भागभे निमई नकं समागयति आस्थपरंग्रहान्तहजे यज्ञगे कामायपोगासमस्ताकमारञ्जत्वमेकामोनोपनमे यज्ञमेवका च्चावान जिल्गाफेट पत्समानाः चेट्थे वादशाले दुवाद्न जुमेव यरिष्टक्यत्थे नभागदे जे आपदावदिते लीवें ध्यंगी जंदालं जेंथि वो पेविवाद्वानाः रादु यरे अजेट्थे ने यरिष्टायत लोगादे युष्पदेशायुष्पन्थ च नै मापधामदिष एव सिन्हाय तथा दिशल् दमाय चाधवे ैवत्येव धामजेवान्ते चोपधाम च जत्येव साहन्त्यज्ञार्गजेक्ष न्य वेद्य कामजेतान्नवान्त्यज्ञमेवान्यवन्तधिक एव चन्द्रमान एव भवत्य वेद्य कामजेवान् नादज्ञानि तजमेवान् नाग्यक्षेण भागसे येनपधापधिक एव मन् मादम् करो चन्द्राय एव भवत्यज्ञ य <laughs> पापकाय tena sadha deva rakshaya sutaya bhavena tena sadha sura deva suddha dilena celeyna deva rupake sakshita bhavena sarva bhavana januvara prana vedana tena sadha deva rakshaya bhavaka yamajvena tena sadha deva rakshaya suddha gelekhu deva tena sadha sretim bhavahet prema vatsya jagane putra deva lohana samata gamana न्द्राय वक्त्रेण जगपालं सजाकम साक्षादेव लं जर्पथे कामय जमान् ग्रामे वसुमन्त्र्यक्तेन भागधेभवैमन्त्रं करव जमानेन जर्पणे यत्तं ग्रामे संयक्ते वा जम्बादेशेषामञ्चैवाना द्वादश लक्ष्यमेव द्वादश भागधे भव दिवादिभादिमाला गुहन्त्यरप्रञ्जयितवमसंक्राममो आर्केनाप्पदृज्ञावलक्खणे दिवदेन सलोदासमत्त्वाकवादन्यर्तवेद्यच्चाच्राक्लाब्द्धरे रञ्जन्त्यत्थभागोलादेशकरण्यत्थभागोन्त्यस्तु सम्बन्धो यनमानोभिसंभवलक्खये परहान्तिवान् सूर्यगणभये निलोदेन उपवदभासयेय निमेयौ समजदिना ृत्यैकार्यम् यद्धयुद्धिय चितावक्षाणानि सम्विधाय मन्ध्यसमञ्जे त्याम् महत्तजान्यन्तोऽत्वास्य पदाभजेवास्य पदाभजे ए पारं वात परं नार्य रूपेद्वादं न ते त्रुणं केत्रुणं विदत्त्वा धो नग्ने ईश्वरं वात परं पवजं अश्वोवाज्जम वै ैवैभैवारुणेनैव्यम् दक्षिणा भविष्यम् भवत्यं वत्सरो वा एतस्यान् प्रजा एव सोनान्यत्र हरियानम् प्रजा एषन् भजान्न विद्वे ैवैभाषा <laughs> कुञ्चलित्रा पुरण्यं दक्षिणा पवित्रं वैहरण्यं पुनाजनं प्रजान्धये काकपाल भवल प्रभदेवाशकमालिलादेवास्मिन् नाज्यं कथा जयजलादशकमाल पृष्टिन्द्रियं कथा जयत् प्रातशकता लोजगत्येतास्मिन् प्रसुरन्धारातगेतान्मूलगेव यस्केन्द्रिकाले लोकाल् लोकाच्छिद्यते सन्नमासे हि लौकाय नमः सवित्रे देवैश्वराय वरगमाय निर्गेशमाहास्य अहं भवो नमाहे परिभाषय सम्अर्थोवाज्ञे ईश्वरस्तु मत्स्थने नप्रिनाक्तोवा सम्बद्धनेमात्म उपदधादि सुरैकस्कलोकस्य समिक्षाः देवदन्नेव भारतगवक्म लोकेषिखे महाभागेदेवानां च ्राह्मणायन्दाज्ञायश्च नेतायत्रिद्वादसमा भिषत्य भवति सप्तके भवता चञ्चलं नृपदे सङ्ग्रामोहप्रयास्येव स्वानम् बाल जगवानृपदे स्वानृतम् वत्सर खलु वै देवानामायधनमेतस्माद्वायतना देवासुरानयद्वये स्वानलं बाल जगवानं निर्वमति देवानां देवायकेय संग्राममेत चन्द्रामेतव प्रजादेयोद्योलमस्य वेश्वा नलन्द्वादशमानन्यत्रिद्यो सममाधेयौ सममाजौर्यलं वरुणाचरेष्वा नलन्द्वादशमानन्यत्र वैशवम् प्रतिसरोमालस्तम्वतितामेव प्रतिग्रन्था भयावत्प्रतिग्रन्था पुरुषं रामयेष्वा नरन्ता जगवानन्द्रमे तु भयावत्पेक्ष्यसंवत्फलाप्रतिग्रन्थादिनामैश्वा नरं पातु जगवानेन भव चैतमेव पुनरागत्य जन्म जैत्यमेव प्रयुञ्चै हनुमञ्च विप्रादो समाङ्गा निर्जि